मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं तर्टिफोर् देवासुरयुद्धप्रसङ्गः श्रीगणेशाय नमः मुद्गल उवाच दैत्याभ्रमणयुक्तास्ते आययोर्डुण्ठिसन्निधौ यत्र देवगणयुर्युक्तो वक्रतुण्डः प्रतापवान् दृष्ट्वा तं वक्रतुण्डं ते भयभीदास्तदा भवन् महाकायं महावीर्यं नरनागस्वरूपिणं नानावीर्यैपरिवृद्धं प्रलयाग्निशमैः परैः देवैः हर्षसमायुक्तैः संस्थुतं भक्तिभावितैः मनसा दैत्यपाः सर्वे मे निजे मृत्युमात्मनः सत्याकाशभवा वाणी सोऽयं वक्राननो भवेद वक्रतुण्डजयत्वं वै जयत्वं जय सर्वदा देवै प्रकथ्यते तस्माद्वक्रतुण्डोऽयमागतः यदि युद्धं करिष्यामो नेन सार्धं महाद्भुतं युद्धे वयं मृदाश्चेद्वा वृत्तान्तं को निवेदयेद अदो मत्सरदैत्येषम् गमिष्यामो जवान्विताः एवं निश्चययुक्तास्ते मत्सरं जग्मुरादराद स देवो वक्रतुण्डस्तु दूरतः पञ्जयो जनं ईर्ष्या पूरं सभां प्रभुः दैत्यास्ते मत्सरं गत्वा वृत्तान्तं तं न्यवेदयन् भो सत्यमेवेदं वचनं कसमुद्भवं नरपुञ्जररूपेण दृष्टो वक्प्राननः प्रभुः देवैः समावृतो भूपविचारं कुरु सर्वथा तेषां वजनमाकर्ण्य मत्सरश्चिन्तयान्वितः बभूवम्लानतुण्डश्च ज्ञात्वा महाबलं तद क्रोधसमाविष्टस्तं हन्तुं कृतवान् मनः आज्ञापयत्स दैत्येन्द्रान् सज्जिदा भो भवन्त्विति गमिष्यामि रिपुं हन्तुं वक्रतुण्डं महाबलं सदेवं सपरिवारं ततो हृदि सुखं भवेत् आज्ञामात्रेण दैत्ये स्यात् सन्नद्धा समुपाययुः हर्षेण महदा युक्ता देवमर्दनलालसाः चतुरङ्गं निःसृतं नगराद्बहिः तन्मध्ये मत्सरो वीरशुशुभे रथसङ्गदः आकतास्ते त्वराभाजो वक्रतुण्डस्थितो यतः तान् दृष्ट्वा देवसङ्कास्तं शशंसुर्गणनायकम् स्वामिन् समागतो दैत्यस्वयमेव महाप्रभो यत्करिष्यसि देवस्त्वं त्वरया तत्कुरु प्रभो अस्मान्नो चेच्छ दैतेया हरिष्यन्ति महाबलाः मरणं प्राप्तमस्माभिः कुत्र स्थातुं देवानां वक्रतुण्डश्च श्रुत्वा वचनमादराद उवाच विस्मितो भूत्वा मा भयं कुरुत प्रियाः स दैत्यम् मत्सरं देवाः कनिष्यामि न पश्यन्तु कौतुकं युद्धे मदीयं परमाद्भुतम् इत्युक्त्वा वक्रतुण्डः सिंहारूढो भवत्प्रभुः पाशाङ्गुशपरो गर्जन्मेखनादसमस्वनः तस्य शब्देन सन्त्रस्तं त्रैलोक्यं सचराचरं भयभीता दैत्यगणा बभूवुश्च प्रजापते मत्सरो हृदि सन्द्रस्तो वचनं च दमब्रवीद दृश्यदे प्रबला सेना किं भविष्यदि दैत्यपाः भययुक्तं वचस्तस्य श्रुत्वा तं दैत्यपा जगुः वयं योत्स्यामहे स्वामिन्पश्य त्वं युद्धजम्महः इत्युक्त्वा मत्सरं सर्वे प्रह्लादप्रमुखा सुराः वक्रतुण्डं ययुर्वीरा नादयन्तस्त्रिविष्टभं बाणवृष्टिं महोग्रां ते चक्रुक्रोधसमन्विताः ववर्षुरास्त्रशास्त्राणि वर्षाकाले खना इव तैरस्तैर्दैत्यराजैश्च हदा सेनादिवौकसां देवाविष्णुमुखास्तत्र युयुद्धुस्तान समागतान् कोरयुद्धं ततस्तेषां देवासुरविनाशनम् अभवदरुणं क्रूरं द्रष्टुं नैव प्रक्ष्यते दे। देवाश्च दानवाश्चैव युयुधुशस्त्रबाणयः मरणे निश्चयं कृत्वा परस्पर जयेप्सवः केचिद्बाणमयीं वृष्टिं चक्रुशक्तिस्तु केचन चिक्षिपुर्बिन्दिपालांश्च खड्गैर्वै चिक्षिदुःपरे बबन्धुरपरे पाशैर्भल्लैर्वा विव्यधुः परे, परे, परे गदायुद्धं महाघोरं चक्रिरे वीरसप्तमाः मुद्गरैश्च महावीरा मारयामासुरोजसा मल्लयुद्धं परे चक्रुर्नादयन्तो दिशो दश सैन्यस्य रजसा सर्वं व्याप्तमासीद्दिगन्तरं नाभूत्स्व परबोधोऽपि पुरोगान् जग्निरेतदा शस्त्राय शस्त्राणि संवार्य तथास्त्रैरास्त्रसञ्जयं बाणैर्बाणान् समारुष्टाश्चिच्चिदुस्ते परस्परं शस्त्रे भग्ने च देवीरा मल्लयुद्धं सुदारुणं चक्रिरे क्रोधसंयुक्ता मण्डलानिप्रबभ्रमुः हस्तेन हस्तमापीड्य पादैः पादान् प्रगृह्य च कूर्परं कूपरेणैव मर्दयामासुरोजसा मस्तकं मस्तकेनैव जानुभ्यां जानुनी तथा ललाटेन ललाटं च स्पालयामासुरञ्जसा एवं युद्धे प्रवृत्ते वै मृधा कैचित्तु मूर्झिताः भग्ना के भिक्षदा अन्ये नानाशास्त्रप्रहारतः शोणितौखवहाखोरा नदी ना जादा दुरत्यया रक्तेन सर्वतस्तत्र रेणवो मज्जितास्ततः तेन प्रकाशितास्तत्र दिश्यस्वपरबोधिकाः तदो भूत्तु मूलं युद्धं यथा प्रजापते रधिनो रथिभिः गजिनो गजिभिस्तथा अश्वारूठा हयारुध्वाैः पदाताश्च पदातिभिः श्रेष्ठा युयुधिरे श्रेष्ठैर्महाबलसमन्वितैः प्रबोध्यजग्निरे केजिद्वीरासमरशालिनः परस्परमभिन्दंस्ते शस्त्रास्त्रार्मभेदिभिः सर्वे शुशुभिरे चैव पुष्पिधा किं शुका कदाचि जैनो कदाचिज्जैनो देवः कदाचिद्दानवास्तथा न रात्रौ विश्रमं च परस्परं येवं पञ्चदिनं युद्धमभवत्तत्र दारुणं न जयम् प्राप्नुयुदेवा दैत्या चापि प्रजापते ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे दे। वक्रतुण्डचरिते देवासुरयुद्धप्रसङ्गो नाम च दु त्रिंशोऽध्यायः ओ